मुद्गलपुराणं खण्डं नयन योगचरितम् अध्यायं तर्टि सेवन् विघ्नराजखण्डश्रवणपठनमाहात्म्यवर्णनं श्रीगणेशाय नमः सूत उवाच विभीष्णो महाभागो लङ्गां प्राप्य सुहृदृदः रामं पूज्यं स्वयं नित्यं। भक्तियुक्तो भजत् परम् तत्रादौ गणनाथस्य पूजनं वेदसम्मदं विचार्य विस्मितः सोऽपि दुःखयुक्तो बभूवः तारयामासमनसि गणेशं ब्रह्मनायकं सर्वपूज्यं गणेशस्योच्छिष्टभुजो मरान् परान् कदाचित्तत्र योगीशो नारदस्वेच्छयागदः तं प्रणम्य प्रपूज्यैव परं पप्रस्थितं विभीषण उवाच गणेशोच्छिष्टभोक्तारो देवाविष्णुमुखामुने अग्रपूज्यप्रभावत्वात् किमिदं वेदसम्मदं नारद उवाच ब्रह्मा कारा नाना ब्रह्माशिवाद्याधारका ब्रह्म्य मुख्य नेदेशु कथितुधा स्वामी गणेशानो ब्रह्मणस्पति ब्रह्मण पादुभाविपालु प्रभाव तम योगप्रदानार्थं देहधारी बभूवः गजाननादिचिह्नैः स संयुक्तो ब्रह्मरूपकैः विघ्ना सत्तात्मका प्रोक्तास्तेषाम् स्वामी गजाननः विघ्नैः सर्वान् प्रमर्द्यैव केल ते ब्रह्माणि विघ्नयुक्तानि भवन्दे राक्षसाधिपसत्यसङ्कल्पहीनानि तदा तमभजन् परं पराधीनस्वभावं च जानन्दे तानि नित्यदा स्वकीयं च ततः प्रीदो गणेशो जायते परः ददादियोगमुख्यं स्वं गणेशस्तेभ्य आदराद् तदा विघ्नविहीनानि भवन्ते वीर्यवन्ति तु अतो गणेश्वरः पूर्णस्सर्वेषां पूर्णतां गदः पूर्णसर्वादिदां वेदे ज्येष्ठराजप्रभावतः येवं नित्यं भजत्वं नि भज शांतिदकम सविघक न संशय गणेश भजने कश्यचारो भमूहां पदी समूहा एवमुक्त्वा महायोगी नारदो गणपं स्मरन् ययौ सोऽपि महाबुद्धिर्विचाल्य गणपेरतः पपाठ विघ्नराजस्य सखण्डं मौद्गलस्थितं नित्यं भक्तिप्रयुक्तः सम्पूज्य तं गणनायकं तदशान्दिसमायुक्तो बभूवेः विभीषणः गणेशमभजन्नित्यं परं रामैक्यमार्गदः एकदा राक्षसाधीशो ह्यगमत्सेदुबन्धनं महोदरं प्रपूज्यैव तत्रस्थ पाठमाकरोत् तत्र भेगीजले संस्था शुश्रुवे खण्डमुत्तमं विघ्नराजस्य तेनैव सुखयुक्ता बभूवः एतस्मिन्नन्तरे तत्र सा सर्पेण धृता भवत प्रस्थाममार गाणेशयत् नीत्वा स्वानन्दके पुरे भेगीं गृह्य ब्रह्मभूतां चक्रोर्हर्षसमन्विताः एवमज्ञानदपुण्यं विघ्नेश चरितोद्भवम् नानाजनादयो विप्रसृत्वा खण्डं व्ययुर्मुदा स्वानन्दं भुक्तभोगाश्च मया वक्तुं न शक्यते ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगजिदे योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे विघ्नराजखण्डश्रवणपठनमाहात्म्य वर्णनं नाम सप्तत्रिंशोऽध्यायः ओम्